अथ चतुस्त्रिंशोऽध्यायः वैशम्पायनवाच स गत्वाहास्ति न पुरं नकुलः धृतराष्ट्रं च पाण्डवः सत्कृत्यामन्त्रितास्तेन आचार्यप्रमुखास्ततः प्रयः प्रीतमनसो यज्ञं ब्रह्मपुरःसराः संश्रुत्यधर्मराजस्य यज्ञं यज्ञविदस्तदा अन्ये च शतशस्तुष्टैर्मनोभिर्भरतर्षभा द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् दिग्भ्यः सर्वे समापेतुः क्षत्रियास्तत्र भारता समुपादाय रत्नानि विविधानि महान्ति च धृतराष्ट्रश्च भीष्मश्च विदुरश्च महामतिः दुर्योधनपुरोगाश्च भ्रातरः गान्धारराजस्सु बलः शकुनिश्च महाबलः अचलो वृषकश्चैव कर्णश्च राथीनां वरः तथा शल्यश्च बलवान् बालिकश्च महाबलः सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाशलः अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः यज्ञसेनः सपुत्रश्च शाल्वश्च वसुधाधिपः प्रज्योतिषश्च नृपतिर्भगदत्तो महारथः स तु सर्वैः पर्वतीयाश्च राजानो राजा चैव बृहद् बलः पौण्ड्रको वासुदेवश्च वङ्गःकालिङ्गकस्तथा आकर्षाः कुन्तलाश्चैव मालवाश्चान्ध्रकास्तथा द्राविडासिंहलाश्चैव राजा काश्मीरकस्तथा कुन्तिभोजो महातेजाः पार्थिवो गौरवाहनः बालिकाश्च परे शूराराजानः सर्वयेव ते विराटस्सह पुत्राभ्यां मावेल्लश्च महाबलः राजानो राजपुत्राश्च नानाजनपदेश्वराः शिशुपालो महावीर्यः सः पुत्रेण भारत आगच्छत्पाण्डवे यस्य यज्ञं समरदुर्मदः रामश्चैवा निरुद्धश्च कङ्कश्च सहसारणः गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान् उल्मुखो निषठश्चैव वीरश्चाङ्गावहस्तथा वृष्णयो निखिलाश्चान्ये समा जग्मुर्महारथाः एते चान्ये च राजानो मध्यदेशजाः आजग्मुः पाण्डुपुत्रस्य राजसूयम् महाक्रतुम् ददुस्तेषामावसथान् धर्मराजस्य शासनात् बहुभक्ष्यान्वितान् राजन् दीर्घिका वृक्षशोभितान् तथा धर्मात्मजःपूजां चक्रे तेषां महात्मनाम्